श्रीमद्भागवत् महापुराणं दसंस्कन्धम् अशीतितमोऽध्यायः श्रीभगवानुवाच अपि ब्रह्मन् गुरुकुलाद्भवता लब्धदक्षिणात् समावृत्तेन धर्मज्ञभार्योढा सदृशी न प्रायो गृहे सुते चित्तम् अकामविहितं यथा नैवातिप्रेसे विद्वन्धनेषु विदतं हि मे केचित् कुर्वन्ति कर्माणैकामैरहतचेतस सजन्तप्रकृतिर्दैवीर्यथाहं लोकसङ्ग्रहं कश्चिद्गुरुकुले वा सम्ब्रह्मन् स्मरसि नो यतः द्विजो विज्ञाय विज्ञेयं तमस पारमश्नुते तवै वै सत्कर्मणां साक्षाद् द्विजातेरीह सम्भव आद्योऽङ्गयत्राश्रमिणां यथाहं जानदो गुरुः नन्वर्थ कोविदा ब्रह्मण् वर्णाश्रमवतामिह ये मया गुरुणा वाचां तरन्त्यजो भवाणवम् नाहमिद्याप्रजातिभ्यां तपसोपशमनेन वा दुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा अपिनास्मर्यते न स्मर्यते ब्रह्मन्वृत्तं निवसतां गुरौ गुरुद्वारे स्योदितानामिन्धनानन्नयने क्वचिन् प्रविष्टानां महारण्यम् अपरतो सोमहद्विज वातवर्षम् अभूत् तीव्रं निष्ठुरांस्तनैन त्वन्त्वन्व तुर्यश्चास्त्वं गतस्तावत्तमशाचावृता दिशः निम्नं कुलं जलमयं न प्राज्ञायत किञ्चन वयं भृशं तत्र महालीलाम्बुभि निहन्यमानां हुरम्बुसम्प्लवे दिशो विदन्तोऽथ परस्परं वने गृहीतहस्ता परिभम्भ्रिमातुराः एतद्विदित्वा उदतेरवौ सान्दीपनिर्गुरुः अन्वेषमाणो न शिष्याम् आचार्योपश्यदातुरान् अहो हे पुत्रकायोऽयम् अस्मदर्थेति दुःखिताः आत्मा वै प्राणिनां प्रेषं तमनादे मत्भराः कर्तव्यं गुरुनिस्कृतम् यद्वै विशिद्धभावेद सर्वार्थात्मार्पणं गुरौ तुष्टोऽहम्भोजुजश्रेष्ठा सत्या सन्तु मनोरथाः छन्दासि याति या मालीभवन्तीह परद्य च इत्थं विधान्यनेकानि वसतां गुरुवेश गुरोरनुग्रहेणैव पुमानपूर्णप्रशान्तये ब्राह्मणुवाच किमस्माभिरम्भीरमृतं देवदेव जगद्गुरो भवता सत्यकामेन येषां वासो गुरावभू यस्य छन्दोमयं ब्रह्म देह आवपनं विभो त्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् श्री श्रीमद्भागवती महापुराणे पारमुंशां चयितायां दशसंस्कन्धे ऊर्तुरार्धे श्रीरामचरिते सीतितमोऽध्यायः